सर्वेषां स्वागतम् अस्माकं वर्गे अधुना राधा भगिनी प्रार्थनया आरम्भं करोति वा सरस्वती नमस्तुभ्यं वरदेकामरूपिणी विद्यारम्भम् करिष्यामि सिद्धिर्भवतु मे सदा ॐ सहना भवतु सहनौ भुनक्तु सह वीर्यम् करवावहै तेजस्विनावधितमस्तु मा विद्विषावहै ॐ शान्ति शान्तिशान्तिः ॐ धन्यवाद भगिनि धन्यवादाः अधुना अस्कं विषय केपगीता संक्षेपगता गत गहे वह दृष्ट कर्जुन अर्जुनस्य मनसी विषाद आगता विषादेन तेन किंत गाण्डीवसंस्ते हस्तात् तत् अहं न योजस्यामि इत्युक्ते अहं युद्धं न करिष्यामि इति उक्त्वा सः रथे एव उपाविशत् तावत्पर्यन्तं वयं दृष्टवन्तः अधुना अग्रिमे किं भवति तथैव अहं स्क्रीन् करोमि एतावत्पर्यन्तं वयम् अत्र पश्यन्तु तदस्ति संक्षेपगीता तत् सप्तमः श्लोकः अत्र तस्य विवरणमस्ति अधुना तत्र भारतमोदभान् पठति वा अहं तत्र प्रथमं परीक्षेण किञ्चित् पुनरावर्तनं कुर्मः पूर्वपीठिका अनन्तरम् अग्रेसरेम तत् अर्जुनः तत्र पितृन् ततः आरभ्य पठति वा महोदय okay. अर्जुनः तत्र पितॄन् पितामहान् आचार्यान् मातुरान् भातृन् पुत्रान् पौत्रान् सखीन् स्वसुरान् सुरद रदश्च उपस्थितान तान सर्वान् बंधुन द्र दृष्ट्वा दृष्ट्वा दृष्ट्वा दृष्ट्वा अर्जुनः परमं विषादं प्राप्तवान् सः कृष्ण एते सर्वे मम बान्धवाः एतान् अहं मा, मारयितुम् इच्छामि अहं युद्धं न करोमि इति उक्त्वा बाणं धनुः च विसृज्य रथे उपविष्टवान् सत्यम् एतावत्पर्यन्तं वयम् गतसप्ताहे दृष्टवन्तः अधुना प्रथमपरिच्छेद तत् प्रथमं परिच्छेदं स्वीकृत्य भारतमहोदय तत्र स्वशब्दैः वदति वा किं तत्र किं किं दत्तमस्ति अर्जुना अर्जुन पितॄन् पितामहः महान् आचार्यान् मातुलान् पुत्रान् पौत्रान् सखीन् श्वसुरान् स उपस्थिता अत्र अत्र पश्यन्तु किमस्ति पितृन् पितामहान् आचार्यन् सर्वेषु स्थलेषु द्वितीया विभक्ति बहुवचनम् एवं खलु द्वितीया विभक्ति बहुवचनं किमर्थम् एतान् दृष्ट्वा एतान् दृष्ट्वा पितॄन् दृष्टा पितामहं दृष्ट्वा पितामहान दृष्ट्वा हा तत्र भीष्मपितामहः तत्र आसीत् परन्तु अन्येः जनाः अपि तत्र आसन् ये पितामहः सदृश्य पितामहस्य स्थाने अतः पितामहान् आचार्यः द्रोणः तत्र आसीत् परन्तु अन्यान् आचार्यान् अपि तत्र दृष्ट्वा मातुलान् मातुलान् इत्युक्ते आमामां तत्र कः मातुलः अस्ति आसीत् तस्मिन् समये कौरवस्य पक्षे कौरवपक्षे माद्री हा शकुनी अपि मातुलः बहु सम्यक् अपि मातुलः सत्यं तत्र माद्री माद्री इति पण्डु पण्डोः भार्या अस्ति okay. yeah. एका तु uh, कुन्ती द्वितीया mm -hmm. माद्री तत् माद्रेः बन्धुः शल्य इति सः अपि मातुलः खलु हा, mm -hmm. हा अर्जुनस्य मातुलः एव अतुल mm -hmm. मातुलान् भ्रातॄन् पुत्रान् अत्र पुत्रान् इत्युक्ते पुत्रसदृश्यः अभिमन्यु इति अर्जुनस्य पुत्रः परन्तु तत्र अन्ये ये कौरवाणां पुत्राः ते पुत्रान् एव Mm. पौत्रान् पुत्रस्य पुत्र पौत्र तान् सर्वान् सखीन् श्वशुरान् सुहृदः सुहृदः सुहृदः इत्युक्ते सुष्ठु हृदयः यस्य सः सुहृदः सुष्ठुहृदयः इत्युक्ते तत्र स्ट्राङ्ग् हार्ट् इति न परन्तु यस्य अन्तःकरणे तत्र प्रेम वा ममता इति अस्ति सः सुहृदः हा सुहृदाः अप अपि तत्र सन्ति yeah. कौरवाणां पक्षे हा एतान सर्वान् हा अग्रिमे वदतु उपस्थितान् तान् तान, तत्रापि पश्यन्तु द्वितीया विभक्तु हा वदतु वदत। उपस्थितान् तान् तान सर्वान् दृष्ट्वा दृष्ट्वा दृष्ट्वा दृष्ट्वा अर्जुनः परमं विषादं प्राप्तवान् परमं विषादं प्राप्तवान् अग्रिमे तत्र अग्रिमा पङ्क्ति तत्र विषादं परमं विषादं केवलम् तद्गतसप्ताहे वयं दृष्टवन्त केवलं दुःखम् इति न परमं विषादं तत् अन्तः अन्तःकरणात् तत्र विषादभावनया सः वदति किं वदति हे कृष्ण दृश्यते स्क्रीन् न दृश्यते पार्श्वली ऐ केन् सी एवं अन्यान् अपि न दृश्यते वा अधुन. अस्तु अधुना कृष्ण कृष्ण एते सर्वे मम बान्धवाः एते सर्वे मम बान्धवाः मै ब्रदर् एतान् अहं मारयितुं न इच्छामि एतान् अहं मारयितुं न इच्छामि अहं युद्धं न करोमि इति उक्त्वा बाणं धनुः च विसृज्य रथे उपविष्टवान् इति उक्त्वा इति उक्त्वा देन् बाणं धनुः पुटिटोन् सैड् विसृज्य रथे विसृज्य रथे उपविष्टम् तत् प्रथमे अध्याये वयं दृष्टवन्तः एतत् सर्वं ततस्य आचार्याः पितरः पुत्रा तथैव च पितामहः मातुला श्वशुराः पौत्रा श्याल्लाः सम्बन्धिन सम्बन्धिनस्तथा इति वदति अनन्तरम् एतान् हन्तुं न इच्छामि घतोऽपि मधुसूदनः अत्र अग्रिमे वदति एतान् न हन्तुम् इच्छामि अपि मधुसूदन मधुसूदन कृष्ण हे कृष्ण इवन्तु घ्नतः इवन्दो अहं घ्नतः इवन्दो देवीर् किल्मि घ्नतः अहं तान् हन्तुम् न इच्छामि <laughs> लड्डम् किल्मि अहं तान् न मारितुम् इच्छामि अपि राज्यस्य हेतो किं नु मयि कृते इति अग्रिमे वदति तत एवं सर्वं वदति अन्तिम अंतिमा, अन्तिमं श्लोकं तत् भवानेव पठितवान् इति अहं स्मरामि तत् एवमुक्त्वा सञ्जय वदति एवमुक्त्वा अर्जुनः सङ्ख्ये यथोपस्थौ उपाविशद् विसृज्य सशरं चापं शोकसंविघ्नमानसः शोकसंविघ्नमानसः शोकेन आवृत्त इति मनः एतादृशी स्थिति शोकसंविघ्नमानसः सः अर्जुनः अत्र शोकसंविघ्नमानसः इति अर्जुनः शब्दस्य विशेषणः अस्ति सः सः अर्जुन शोकसंविघ्नमानसः इति हा एतावत्पर्यन्तं मया दृष्ट तथैव अत्र अपि अस्ति तदपि एकवारं विसृज्य तत् एतत् श्लोकमपि पठति वा विसृज्यत्या विसृजत्या सत्रे वोप ेवोपविषयन्त्ययं पुनश्चावेक्षते सर्वान् येन खेदो विवर्धते खेदः अभिवर्धते खेदोभिवर्धते इति इत्युक्ते खेदः अभिवर्धते अस्तु हा सम्यक् महोदय धन्यवादः धन्यवादः अधुना तत् रमा भगिनी अग्रिमं श्लोकं पठति वा पठतु अस्तु भगिनी पश्चात् पश्चात् भाषते कृष्णम् राज्यं भोगं शुकानि च न काङ्क्षे नचरा न च वाजे नैव हन्मीति बान्धवान् अस्ति किं वदति अधुना पश्चात् पश्चात् प्रभा बा, प्रभाषते अगेन् हि सा कृष्णं राज्यं भोगं कानि आल् दीस् ऐ डोण्ट् वाण्ट् राज्य द रूलिङ्ग् पवर् अण्ड् द भोगं द पवर् आफ्के न एव अहम् इति बान्धवान् whatever so, hmm. whatever advantage be be getting, whatever benefit I will yeah, be getting, I mean, benefit by, by my by. I don't वट् एवर् अड्वाण्टेज् ऐ विल् बि गेटिङ्ग् वट् एवर् बेनिफिट् आल् बि गेटिङ्ग् बै किण्डवान् ऐ डोण्ट् देशे काङ्क्षे न इच्छामि इति पान्धव अस्तु तत्र सर्वम् etat सर्वं प्रथमे adhyaye. तस्य सञ्चलनम् यत्र सर्वप्रथमे अध्याय अस्ति अधुना अधुना किम् अभवत् अस्तु धन्यवादः भगिनि अधुना अग्रिमं विना भगिनी पठति नवमः श्लोकः हा भगिनि कृष्णः संशृणुते सर्वं पुनश्चोपदिशत्यमुं ज्ञानं भक्तिं तथा योगं साङ्ख्यं कर्म तथाखिलं किं वदति एषः श्लोकः कृष्णः एवं श्रुत्वा पुनश्चोपदिशत्यमुं पुनश्च प्रतिशत्यमुम् इत्युक्ते किं भगिनि उपदिशत्य उपदिशति कृष्णः संशृणोते सर्वं पुनश्च उपदिशत् उपदिशति अमुम् अमुम् इत्युक्ते एषः अर्जुनः तम् अमुम् अमुम् उपदिशति तम् अर्जुनम् उपदिशति इति भावः अमुम् उपदिश तत् अमुम् इति तत् अदस् इति एक सर्वनामरूपं तस्य अमुम् इति रूपम् तत् अधुना पश्यन्तु कथमस्ति कृष्णः संशृणुते संशृणुते सम्यक् सम्यक् तस्य श्रवणं करोति सम्यक् शृणोति तत्र किमर्थं तत्र अर्जुनः तु कृष्णस्य सखा एव यत्किमपि वदति विषादरूपेण वा तत्र दुःखरूपेण तत् किं वदति तस्य मनसि का भावना आगता एतस्य सम्यक अवगमनम् अतः तत्र उपसर्गम् उपसर्गस्य योजना तत्र क्रियते सुश्रुणुते संशृणुते सम्यक् दृष्ट्या श्रवणं करोति कृष्णः शृणुते इत्युक्ते ओके जस् हर्ड् इति परन्तु र्थम् अवधानपूर्वकं सः शृणोति सर्वम् एतत् सर्वं यत् किमपि सः वदति तत् सर्वं सः श्रुतवान् आसीत् हि वास् अ गुड् लिसनर् इति खलु तत्र मानसशास्त्रे दृष्ट्यापि वयं वदामः खलु मानसशास्त्रे इति सैकोलोजिस्ट् दे हव् टु लिसन् टु द प्लान् फस्ट् रैट् पुनः च उपदिशति अमुम् उपदिशा उपदिश अत्र पुनः च इत्युक्ते किमर्थं तत् उपदिशति अमुम। उपदेशं करोति उपदिशति उपदेशं करोति किमर्थं पुनः इत्युक्ते तत्र कृष्ण अर्जुनः तस्य सख्य सख्यभावना सख्यभक्तेः उदाहरणं परन्तु तत्र कृष्णः वारं तत्र पाण्डवानां सह हायकः एव रूपेण रुप, सः सा, सहायकरूपेण एव सः कार्यं कृत खुत, कृतवान् आसीत् एतावत् पर्यन्तं पुनः mm -hmm. उपदिशति अमुं पुनः पुनः उपदेशं करोति कस्य mm -hmm. उपदेश अग्रिमापङ्क्ति पठतु uh -huh. ज्ञानं भक्तिं तथा योगं साङ्ख्यं कर्म तथा अखिलम् mm -hmm. एतद् एतद् एतद् उपदिशति कृष्णाम् अखिलं बहु सम्यक् ज्ञानस्य भक्तेः योगस्य साङ्ख्यविषये कर्मविषये पश्यन्तु अत्र अस्माकम् अध्ययानां नामकरणं कथम् अर्जुनविषादयोगः द्वितीयमस्ति साङ्ख्ययोगः तृतीयः तत् कर्मयोगः अनन्तरं ज्ञानकर्मसन्न्यास एवं सर्वमस्ति ज्ञानविज्ञानयोगः भक्तियोगः तत्र योगः सर्वेषु स्थलेषु तत्र योगः योगः इति युज् धातु तस्य तस्य घयप्रत्ययन्तरूपं योगः युज् योजना इति तत्र सन्निद्धता दृश्यते एकत्रीकरणम् परमेश्वरस्य यथार्थ स्वरूपस्य परमेश्वर से यथारवूप से ज्ञानम भूवा तोजन होती खल हाँ अत सम्य दृष्टिया ज्ञान से अवगमनम ज्ञान योग भक्तिग सांख्योग कर्मयोग तथा अखिल अखिल ज्ञान कोप न तथा जनाः वदन्ति खलु गीताध्ययने सर्वेषां ज्ञानानां गीता अध्ययनमिति जननी भवति अखिलं ज्ञानं तत्र इति अस्तु अधुना हा अत्र किमस्ति पश्यामि धन्यवादः <coughs> राधा भगिनी अधुना वीणा भगिनी उक्तवती खलु धन्यवाद अधुना अधुना राधा भगिनी तदा श्रीकृष्णः तत् तद, पठति वा तदा श्रीकृष्णः तस्य अज्ञाननिवारणार्थं गीतोपदेशं कृतवान् सः उक्तवान् अर्जुन हा एकनिमिषम् अत्र एकं प्रष्टुम् इच्छामि भगिनि तत्र अज्ञाननिवारणार्थं किमर्थम् अज्ञाननिवारणार्थम् तत्र अज्ञाननिवारणार्थम् इत्युक्ते अर्जुनः अज्ञानी आसीत् वा न तस्य अर्थः अस्ति ते चिन्तितवान् युद्धकारणे ते तस्य बान्धवानां हन्तुं न इच्छति इति विचारः it uh, uh, is not correct the fact that he want, he thinks he is going to be killing his cousins ah uh, se vicharah uh, shuddham nasti tey tey agnanam asti tatkaranam tasy nivaranam artham gita upadesham krtavan shri krishna ah he shows that uh, he is not the person but he is the atma and uh, एतत् सर्वं बान्धवानां कृष्णमेव मारितवान् आसीत् तस्य अर्जुनस्य निमित्तमत् मात्रमस्ति युद्धं कृत्वा एतत् धर्मयुद्धमासीत् धर्मस्य कारणं युद्धं सत्यं सम्यक् सम्यक् अस्ति अत्र अज्ञानी अर्जुनः अज्ञानि न परन्तु अर्जुनः मोहग्रस्त हा मोहपटल तत्र मोहग्रस्तः सः अतः तत्र विषादमनसि आगतः सः युद्धम् एव कर्तुं त्यक्तवान् आसीत् अधुना mm -hmm. मोहग्रस्तः सन् सः अज्ञान इत्युक्ते जीरो नालेज् इति स्थितिः न सः mm -hmm. मायापटले सः तस्य मनः आवृत्तः इति, mm -hmm. इति. अनन्तरं यथा भवती उक्तवती तत् त्वम् एकवारं पठतु सः उक्तवान् तत्र सः उक्तवान् अर्जुन त्वम् अचिन्तनीयान् विषयान् मा चिन्त्य मा चिन्तय पण्डिताः गतासून् अगतासून् च न अनुसोचन्ति, hmm. अहमेव मा hmm. पूर्वम् मारितवान् अस्मित्तमात्रम् hmm. hmm. तव अधिकारः न तु फले hmm. अतः त्वम् फलविषये मा चिन्तय कर्म कुरु इति ah. एतत्सर्वं द्वितीयः अध्यायस्य स्वासाररूपेण mm. दत्तं वर्तते mm. हा द्वितीयः अध्यायः पश्यन्तु द्वितीय सर्वेषां पुरतः भगवद्गीता अस्ति वा तत्र <laughs> उद्घाटयतु अथ द्वितीयो ध्यायः तत्र अपि पश्यतु भगवा सञ्जयुवाच भगवानुवाच अनन्तरम् अर्जुनः पुनः पुनः तथैव वदति कथम भीष्मं संखे द्रोण च मधुसूदन इज भी प्रतिमी पूजारहासूदन एक पूजास्थान mm -hmm. मे पूजनीय भीष द्रोण आचार्य द्रोणाचार्य पूजनीय अहम कथम योत्मी अन सह तत्र तत्त्वज्ञानरूपेण स वदति गुरून् हत्वा हि महानुभावान् एवं सर्वन् भुञ्जीयभोगान् रुधिरप्रदिक् प्रदिग्धान् इत्युक्ते भोगान् सः रुधिरप्रदिग्धान् रुधिर इत्युक्ते रुधिर इत्युक्ते रक्तम् रक्त रक्तेन आवृत्ताः भोगा न इच्छामि अहं तत्सर्वम् एवं सर्वं सः तथैव वदति यथा प्रथमे अध्याये सः उक्तवान् तथैव सः वदति अनन्तरं पुनः एकवारं तत् तथ अष्टमश्लोकपर्यन्तं तथैव अष्टश्लोकः अपि तथैव अनन्तरं सञ्जयः वदति एवमुक्त्वा ऋषिकेशं गुडाकेशः परन्तप न योच्य इति गोविन्दम् उक्त्वा तूष्णिं बभूवः तत् एतत् सर्वम् उक्त्वा ऋषिकेशम् इत्युक्ते श्रीकृष्णं गुडाकेशः गुडाकेशः इत्युक्ते कः अर्जुन गुडाकेश अर्जुनः गुडाकेश तत्र गुडा इत्युक्ते निद्रा निद्रायाः स्वामी वेरी वेल कण्ट्रोल् स्लीप इति गुडाकेश इति एकः व्युत्पत्ति इतोपि एकमस्ति द्वितिया व्युत्पत्ति तत गुडा गुड एव तत्र आ, अर्जुनस्य केशसंभारः कथं वदामि तत् लस्ट्रस् हेर् इति अतः तत् गुड इत्युक्ते इति तत्र दत्तमस्ति गुडा गुडाकेशः परन्तप न योत्स्य इति गोविन्दम् उक्त्वा तूष्णीं बभूवः न योत्स्य न योत्स्ये इति मूलतः अधुना पश्यन्तु अग्रिमं श्लोकं तत् अस्ति कृष्णस्य उपदेशस्य अग्रिमं श्लोकं कृष्णस्य उपदेशस्य आरम्भं सूचयति हा कथमिति तत् किमस्ति तद् द्वितीय अध्याये तत्सर्वम् अधुना तत् जयन्तिभगिनी तत् श्लोकं पठति वा तमूवाच ऋषिकेश तत् प्रथमं तदेकं तत श्लोकं प्रथमं पठतु तमुवाचवाच वाँच्छ। ऋषिकेशग्रहसन्निव भारत सेनयोरुभयोर्मध्ये विषीदन्तमिदं वचः पठामि वा भगिनी अग्रिमे अपि तत् अत्र किं वदति तत् एषः श्लोकः किं सूचयति तत् वदति वा शब्दैः पूर्व इतः पूर्वम् एवम् उक्त्वा ऋषिकेशं गुडाकेश परन्तव्य अर्जुनः भीष्म भीष्मम् अहं कथं ऐ मीन् करोमि भीष्म भीष्मसमीपे अहं युद्धं कथं करोमि आचार्यान् समीपे युद्धं कथं करोमि एतत् सन्देहं सर्वं पृष्टवान् खलु तत् अनन्तरं कृष्ण कृष्णस्य कृष्णं दृष्ट्वा उक्तवान् अहं द्वयो उभयोः अपि स ऐ मीन् औक्षौविनिमे कान् कान् सन्ति इति अहं दृष्ट्वा इच्छा दृ दृष्टं द्रष्टुम् इच्छामि इति कृष्णम् उक्तवान् अतः रथस्य स्थापनम् उभयोः ऐ मीन् सेनयोः उभयो मध्ये स्थापय स्थापय स्थापय इति उक्तवान् अतः ऐ मीन् अहं इति कृष्णः ऐ अर्जुनः उक्तवान् Hmm. Hmm. Uh, तत्र वार्ता वाक्यं श्रुत्वा सेनयोर् उभयोर्मध्ये रथस्य स्थापनं कृतवान् तत्र विषिदन्तम् इदं विषिदन्तम् इत्युक्ते कः विषिदन्तं कः तम् अर्जुनम् तं, तं, तं वचः श्रुत्वा अर्जुनस्य विषय विषय विषयं श्रुत्वा सेनै उभयोर्मध्ये रथम् अर्जुनः ऐ मीन् कृष्णः स्थापितवान् ततः परम् उप उपतिष्टुम् आरब्धवान् गीता उपदेशम् आरब्ध इत्युक्ते तत्र अर्जुनः उभयोः सेनयोः मध्ये विषादम् अनुभवन् अतिष्ठत् तत्र सः आसीत् विषादस्य mm. अनुभवः मनसि दृश्य एतत् सर्वं वचनम् अवदत् हा mm. mm. एतत् सर्वं वचनम् इत्युक्ते भगवद्गीता हा mm. तत् भगवतः mm. mm. mm. वाच्या अधुना mm. मम एकः प्रश्नः भगिनी तत्र प्रहसन् इत्युक्ते कस्य विषये अस्ति तत् प्रहसन् इति श्लोके प्रहसन्निव प्रव इव इत्युक्ते अर्जुनस्य विषये सः एव प्रहसन् अस्ति खलु बिन् ऋषिकेशः प्रहसन् अर्जुनः विषादम् अनुभवति ऋषिकेशः प्रहस प्रहस् प्रहसन् इत्युक्ते तत्र किञ्चित् स्यभावनया हसन्षेण हास्यभावना इत्युक्ते अधुना सत्य हा श्रीकृष्णः उद्दिश्य हसन् इव एतत् सर्वम् आरब्धवान् भगवद्गीतायाः वचनानि इत्युक्ते तत्र किञ्चित् मनसि एव इत्युक्ते अधुना समयः आगतः सर्वेषां लाभाय अधुना गीतोपदेशस्य समयः अस्ति इति न तिष्ठ अधुना तत्र अधुना अहं निश्चयेन वदामि अधुना तत्र अर्जुनस्य कृते मम आवश्यकता अस्ति अर्जुनम् उद्दिश्य वचनानि उद्धृतानि सर्वाणि अग्रिमे अग्रिमे काले अपि सर्वेषां कृते लाभाय इति अतः तत् प्रहसन् इति शब्दस्य योजना तत्र दृश्यते हा तत् पश्यन्तु अग्रिमे अग्रिमं श्लोकमपि पठतु भगिनी श्रीभगवानुवाच श्रीभगवानुवाच अशोचानन्वशोचस्त्वम् प्रज्ञावादांश्च भाषे भाषसे गतासु न गतांसु च नानुशोचन्ति पण्डिताः नत्वे वा न तावदेव तावदेव तावदेव पश्यन्तु एकमेकं एकम स्वीकृत्य वयं वा पश्यन्तु तत्रापि अस्ति खलु उक्तवान् हे अर्जुन त्वम् अचिन्तनीयान् विषयान् मा चिन्तय पण्डिता गतासु गतासु एतावत्पर्यन्तं पश्यं वदति स्वशब्दै वदति वा किमभवत् भगवान् अर्जुनम् दृष्ट्वा वदति ए तु किं न शोचनीयं तदेव सूचति किं शोचनीयं तद् न सूचति पण्डिताः इव त्वं भाषते भा बा, भाषणं करोति पण्डिताः mm. गतास्तु गतविषयस्य विषयं न सम्भाषते भाषते त्वं तु mm. पण्डिताः इव सर्वं जानाति इव भाषते इति चिन्तनेन भगवान् वदति किं सोचनीयं तत्तु तत्तु न शोचति किम् अचिन्तनीयं तत्तु चिन्तयति इति कारणेन mm. भगवान् ah. mm. ah. त्वम् mm. अचिन्तय अचिन्तनीयान् विषयान् मा चिन्तय mm. अधुना किं करोति अशोच्यान् mm. अशोच्यान् तत्र पश्यन्तु mm. शुच्य इति धातुः अस्ति तस्य mm. शोच्य शोच्य mm. अशोच्य हा अशोच्य तान् हा अशोच्यात् इत्युक्ते अन्वशोचः तदस्ति एक भिन्नः तत्र लूलकार इति अस्ति तथैव शुचधातोः योग्यः बहुत्र दृश्यते हा एकम् एकं धातुः स्वीकृत्य तत्र शुचधातु तस्य एव न्यत् रूपं कृदन्तरूपं तस्य एव भिन्नभिन्नलकाराणां mm. तत्र योजना इति दृश्यते खलु च mm. अधुना mm. त्वं शोकं करोसि mm. कस्य अशोचन् विषयकशोकं mm. ah. करोति हा अधुना mm. अग्रिमे सः वदति किं वदति प्रज्ञावादांश्च भाषसे भवान् mm. पण्डिताः सम्भाषते प्रज्ञावादान् तत्र किं श्रेयस्करं किम् अश्रेयस्करं सः उक्तवान् खलु प्रथमे अध्याये एवं तत् शङ्करः वर्णशङ्करः एवं सर्वम् उक्तवान् तत् किं श्रेयस्करं किं किम् अश्रेयस्करम् एतत् सर्वं ज्ञानयुक्तभाषणं प्रज्ञामादान् इत्युक्ते किम् ज्ञानयुक्तभाषणं mm. भाषसे जानसि वा किं mm. पण्डिताः यदा प्रज्ञावादान् भवान् त्वं भाषसे जानसि वा न अनुशोचन्ति पण्डिताः शु mm. पुनः एकवारं शोच धातुः अनु लट्लकार लट्लकार अधुना पण्डिताः mm. न अनुशोचन्ति गतासु अगतासुन् mm. गतासुन् अगतासुन् पण्डिताः गतासुन् अत्र पश्यन्तु गतासुन् ब्यूटिफुल् वर्ड् इति तत् असु असु इत्युक्ते प्राण असु हा इत्युक्ते प्राण गत असून् इत्युक्ते तत्र मृत इति गतासून् इत्युक्ते मृतः गतासुन् इत्युक्ते किं मृतान् ये मृताः इत्युक्ते mm. uh, mm. ये जीविताः गतासु अगतासु येषाम् असु गतः गतासु गतासु तान् तथैव अगतासु ये जीविताः तेषां विषये पण्डिताः विवेकिनः जनाः न शोचन्ति mm. इत्युक्ते mm. तु भा प्रज्ञावाद वदती हाँ ाषसे परा जानती वा mm. सी पंडिता एवं सर्व न अशोचंती mm. हाँ अब किम पचनु प्रथम वाक्य mm. ये शोक न कीय तुम mm. शोकम कर पंडिता वचना तर उपस्थापसी परंतु वस्तु विवेकिन हाँ मर्त्य जीवित मृतेषु वे जीविता सी तुम शोकम न क्युके गुन प्रति नोचंटे अगतासुन अति न शोचन्ति गतं न शोच्छम् इति अस्ति खलु गतं न शोच्यम् इति तथैव भवान् तु एतत् सर्वं करोतिसदोः यदा यस्य मनसि सद्विचारः विवेकबुद्धि जागृता यथार्थ यथार्थदृष्ट्या शोकं न करोति एव तत्र असु इति ब्रीत् प्राण प्राणधारिणी शक्ति अस्माकम् अस्मासु अस्ति खलु तत् गतः अस्मात् इत्युक्ते अधुना महत्वपूर्णश्लोकः किमर्थम् इतः आरभ्य भगवतः उपदेशः आरभते अर्जुनः अज्ञानी न परन्तु मनसि भ्रान्ति सः मुग्धः भ्रान्तः अधुना एतेषां सर्वेषां प्रश्नानां ग्रहणम् अर्जुनस्य एव mm. मनसि न कौरवाणां mm. मनसि किमर्थं ते मूलतः mm. सर्वे अकर्मिणः न नितिः उक्तवान् एव धर्मपालनं न कृतमेव हा तत् वदति खलु सूची इव स्थलं न दत्ता ददामि इति दुर्योधन उक्तवान् आसीत् खलु तथैव धृतराष्ट्रस्य मनसि अयं नीजः mm. मामकः पाण्डवः तत्र मनसि विचाराः mm. ये सन्ति ते भीचारा, शुद्ध शुद्धविचारः इति नास्ति हा mm. ततः mm. पदार्थयो हो, शोकं न करणीयम् इति वदति mm. mm. mm. अधुना तत् mm. द्वितीया द्वितीया पङ्क्तिः अधुना अग्रिमे पठतु mm. त्वमपि शोकं न कुरु त्वमपि mm. Hmm. Hmm. Hmm. Hmm. नतुं शो शौच्यं वर्धते तत् वदामि अत्र कुत्र अस्ति अग्रिमे hmm. hmm. द्वितीये अध्याये एव नत्वं शौच अत्र पञ्चविंशतितः ट्वेण्टि फैव् hmm. पञ्चविंशति कृपया पृष्ठम् उद्घाटयतु सर्वे उद्भवतु तत्र पश्यन्तु अन्तिमं चरणं सर्वेषां श्लोकान् नानुशोचितुमर्हसि शोचितुमर्हसि अग्रिमे नैव शोचितुमर्हसि अनन्तरं नत्वं शोचितुमर्हसि तथैव तत्र का परिसेवना दुःखस्य कारणमेव का अग्रिमे अपि प्रतितमं नत्वं शोचितुमर्हसि सर्वेषु स्थलेषु शोकं न करणीयं तथैव तथा त्वमपि शोकं मा कुरु इति हा शोकं मा सर्वेषु स्थलेषु नत्वम् एकवारं तदपि वयं पठामः नत्वं शोचितुमस्ति पञ्चविंशतितः एकवारं त्रिंशत्पर्यन्तं भवती पठति वा पञ्चविंशतितः हा द्वादश आरभ्य वादश पञ्च पञ्चविंशति पञ्चविंशतितम् द्वादशार्भे पञ्चंशतिपर्यन्तं वा पञ्चविंशतितः त्रिंशत् पर्यन्तं पञ्च अस्तु भगिनि आम् भगिनि अस्तु भगिनि ओके अव्यक्तोऽयम् अचिन्त्योऽयम् अधिकार्योऽयमुच्यते तस्मादेवम् विदित्वैनं नानुशोचितुमर्हसि अतच्चैनम् नित्यजातम् नित्यम् वा मन्यसे मृतम् तथापि त्वम् महाबाहो नैवम् शोचितुमर्हसि जातस्य हि ध्रुवो मृत्युः ध्रुवम् जन्म मृतस्य च तस्मादपरिहात्येते न त्वम् शोचितुमर्हसि अव्यक्तादीनि भूतानि व्यक्तमध्यानि भारत अव्यक्तनिदनान्येव तत्र का परिदेवना अश्चर्यवत् पश्यति कश्चिदेनम् आश्चर्यवत् वदत वदति आश्चर्यवत् चैन्यमन्यशृणोति श्रुत्वा प्येन वेद न चैव कश्चित् देही नित्यमवद्योयम् देहे सर्वस्य भारत तस्मात् सर्वाणि भूतानि न त्वम् शोचितुमर्हसि धन्यवादः अत्र सब विंशतितमं श्लोकम् यतस्ति जातस्य हि ध्रुवो मृत्युर् ध्रुवे जन्ममृतस्य च तस्मात् परिहार परिहार्येथे परिहारयेर्थे न त्वम् शोचितुमर्हसि इत्युक्ते यथात्र एतान् सर्वान् अहमेव पूर्वम् मारितवान इति सः वदति ह तत्र पश्यतु जातस्य हि मृत्युः ध्रुवः ध्रुव इत्युक्ते निश्चितीकरणं ध्रुव इत्युक्ते तत् निश्चितम् ध्रुव इति वयं जानीमः तत् स्थिरः इति तत् जातस्य तु मृत्यु भवति एव यः जायते तस्य मरणं निश्चयेन भवति अनन्तरं मृतस्य च जन्म ध्रुवं तदपि यः मरणं प्राप्नोति यः म्रियते तस्य अपि पुनर्जन्म तु निश्चितम् एवं सति अस्मिन् विषये न त्वं शोचितुम् अर्हसि अधुना सः हा सम्यक् सम्यक् भगिनि धन्यवादः धन्यवादः अधुना अत्र एतत् नास्ति अत्र एव हा एतान् सर्वान् अहमेव पूर्वं मारितवान् अस्मि त्वं निमित्तमात्रभव निमित्तमात्रभव कर्मकरणे एव तव अधिकारः कर्मकरणे एव तव अधिकारः न तु फले इति सह वदति तत् प्रसिद्धः श्लोकः श्लोक uh, फार्टि 47 इति तत्र आगच्छतु सर्वे द्वितीये अध्याये सप्तचत्वारिंशततमं श्लोकम् तत् रमाभगिनी भवती पठति वा अस्तु पठतु ध्वनि भगिनी ध्वनेः तत्र खण्डितः ध्वनिः खण्डितः अस्ति भगिनी भगिनी अम्बिकापतिमहोदयः अगस्तुमहोदयः अपि अस्ति अवस्तु महोदय अपि अस्ति वा ओहो अस्तु ओके ओके धन्यवादा धन्यवादा भगिनी हा अस्तु अस्तु हा अस्तु कर्मन, कर्म कर्म जेवादिकारस्ते मा फलेषु कदाचन मा कर्मफलहेतुर्भूम् कर्मणि तत् प्रसिद्धः श्लोकः अस्ति तत् हा अस्तु अम्बिकापतिमहोदय श्लोकस्य विषये स्वशब्दैः वदति वा धन्यवाद भगिनी कर्मण्येवाधिकारस्य तत् स्वशब्दैः किञ्चित् वदतु श्लोकस्य विषये अत्र त्वमेव त्वं कर्ममेव कर्तुं शक्तुं फले फले न कर्ता फलस्य किञ्चित् अदि फलस्य भूत्वा न इच्छति कर्म कर्ममेव कुरु आम् आम् यत् प्राप्तं तत् कर्म कुरु प्राप्तकर्तव्य पानम कुरती हा अना पश श्लोक कथमस्ट श्लोक अन्वय से सुभाषित अन्वय वहेलिका अस्सी तत् कथम अन्वय तत, तत, करीय तत्र, एस् ओ वि इति अस्ति इत्युक्ते सब्जेक्ट् आब्जेक्ट् वर्ब् इति इत्युक्ते कर्ता कर्म क्रियापदम् अस् अत्र किमस्ति हा पश्यन्तु एव कर्मणि ते इत्युक्ते तव अधिकारः भवति इति भवति इति क्रियापदं साक्षात् श्लोकेन दृश्यते परन्तु तत् अध्याहारकरणीयम् अध्याहृतम् इत्युक्ते स्वीकरणम् तत् अर्थस्य पूर्तता भवेत, अर्थबोधः भवेत् अतः तत्र क्रियापदस्य स्वीकारः एव कर्मणि ते इत्युक्ते तव अधिकारः भवति मा कदाचन मा कदाचन कर्मफलहेतुः अभू तत्त्वात्र मा कदाचन फलेषु तव अधिकारः भवति द्वितीया कर्म कर्म हा कर्मणि तव अधिकार भवति मा कदाचन फलेषु तव अधिकारः भवति अग्रिमे मा कर्मफलहेतुः अभूः इति वदति मा कर्मफलहेतुः अभूः परन्तु अत्र व्याकरणदृष्ट्या एकः नियमः तत् अग्रिमे तत् किञ्चित् प्रौढ तत् अभूः तत्र श्लोके भू एव दृश्यते तत् अ न तत्र मा इति अस्ति मा इति अस्ति तत् मा योगे न योगे इत्युक्ते लुङ् लकारे अत्र अभू इति लुङ् लकार मां योगे अकार अपगच्छति अतः तत्र न भूः हा मा कर्म फलहेतुः भू वस्तुतः तत् मा कर्मफलहेतुः अभूः परंतु मोजना नेगेशन तग्त अतः नकार आगछति अपगछति हाँ मलहेतु अबू कर्मफलुक् तर्मफलकांक्षी कर्म फल कर्मफलकांक्षी फलेशु मनुष्य कर्म तो किम कौती हाँ अभी पश्य एकम एव कार्यं मनुष्यः करोति परन्तु अनेकानि फलानि इच्छन्ति अनेकविधानि फलानि प्राप्येत् इति चिन्तयति कर्म तु एकमेव हा तत् तादृशचिन्तनं न, न, न, न भवेत् मा मा करु मा कुरु इति माते मा ते अकर्मणि सङ्ग अस्तु इति अग्रिमे वदति कर्माचरणे कर्म कर्मणः आचरणे तव सङ्गः सङ्गः इत्युक्ते अभिलाषा अभिलाषा संग अटेच्मेण्ट् इति तत् सङ्गः तव अभिलाषः मा भवेत् इति अधुना अकर्मणि इत्युक्ते कर्मणः आचरणमेव न पश्यतु केचन जनाः ते वदन्ति ओ मात्र अस्ति सर्व एव विधिना भवति तत् किमर्थं कर्म कर्माणि कुर्मः तस्य कोऽपि आवश्यकता एव नास्ति इति न अकर्मणि ते एव आसक्तिः न कर्म तु करणीयम् एव इति कर्मणि तव अधिकार अकर्मणि तव सङ्गः न भवेत् मास्तु इति वदति कर्मणि एव तव अधिकारः कर्म आचरण कर्माचरणे एव तव अधिकार, कर्मा आचरन, कर्मा एव तव अधिकार फल एवं फलं भवेत् इति तत् फलस्य अपेक्षया कर्म न करणीयम् इति अग्रिमे सः वदति कर्मणः अनाचरणे कर्म एव न करोमि इति कर्म कर्मणः अनाचरणे अपि अभिलाषा मा भवेत् इति सः वदति hmm. प्रसिद्धः श्लोकः अस्ति इति अधुना hmm. तत् अग्रिमे सः वदति hmm. अग्रिममपि अम्बिकापतिमहोदय भवान् पठति वा योगस्थः कुरुकर्माणि तत् पठति योगस्थः कुरुकर्माणि सङ्गं त्यक्त्वा जनञ्जयसिद्धो समो भूत्वा समत्वं योग उच्यते एतदपि महत्त्वपूर्णः तत् पङ्क्ति एषा समत्वं योग उच्यते तत्र धनञ्जय इति सम्बोधयति धनञ्जय हा किं वदति सः सः वदति योगस्थः कुरुकर्माणि सङ्गं त्यक्त्वा धनञ्जय सिद्ध्यासिद्धौ इत्युक्ते सिद्ध्यासिद्धौ इत्युक्ते किं द्विवचनान्तरूपमस्ति सिद्ध्यासिद्ध्यो हा तत्र अस्ति सप्तमीद्विवचनं सिद्ध्यासिद्धौ समो भूत्वा समभूत्वा इत्युक्ते समभूत समानता तत्र भवेत् योगस्थः कर्मणि योगभावनया कर्म कर्माणि कुरु इति सः वदति किमर्थं समत्वं योगवि उच्यते समभावनया चिन्तनयन् एव कर्म कार्यं कुरु समभावनया भूत्वा समभावने भूत्वा कर्माणि आचरह इति अत्र चर वजते कुत्र कुत्र कखदुख लाभ अलाभ हाँ अनम त्र इ्वन्वूपेण तर भगवदी मैसे सुखदुखे समयकृता लाभ लाभ जया जये जय वा अजय पराजय सनतयाव व्यवहार करीयोग उच्यते इत्युक्ते योग इत्युक्ते किं सिद्ध्या सिद्ध्यसिद्ध्योः समत्वं सिद्धि असिद्धि तयोः तद् द्वन्द्व भवति तत् सिद्धि अनन्तरं न सिद्धिः इत्युक्ते असि असिद्धि तत्र द्वयोः मध्ये समत्वेन व्यवहारं करोतु इति तत् इति सः वदति तस्य द्वितीये अध्याये हाँ नो फले अत फल विषय मिंत कर्म करो द्वितीय अध्याय सांख्य योग नामना है द्वितीय अध्याय तान प्राप्ति हाँ त्र सांख्योग द्वितय अध्याय त्र सांख्यबुद्धि ज्ञानयुक्तबुद्धि हाँ आसक्तिरहित बुद्धि बुद्धि परन्तु आसक्ति नास्ति इत्युक्ते किमपि न करणीया इति न तत्र बुद्धि साङ्ख्यबुद्धिसहिता आसक्ति नास्ति परन्तु कर्मणः अनुष्ठानमनसि भवेत् कर्मानुष्ठानरूपिणी बुद्धिः इति हा कर्मयोगविषयके बुद्धिः कर्म साधनीयम् इति एतादृशी बुद्धिः तत् अस्ति द्वितीयः अध्यायः अस्तु धन्यवादः महोदय अधुना अवस्थमहोदय अग्रिमे पठति वा ततः श्रीकृष्णः नमस्कारः समस्या अस्ति वा तत्र सङ्गणके समस्या आसीत् वा परन्तु तत्र भवान् तत्र प्रेषितवान् आसीत् खलु तत्र समस्या अस्ति अतः तत् भवान् प्रविष्टुं न शक्नुवान् इति तत् अस्तु पठति ततः श्रीकृष्णः अर्जुनाय ततः ततः श्रीकृष्णः अर्जुनाय विश्वरूपं दर्शितवान् हो श्रीकृष्णोविद्म्यक् सम्यक् सत्यं सत्यं अग्रिमः पङ्क्ति अर्जुनः अर्जुनः दिव्यम् चक्षुः प्राप्य श्रीकृष्णस्य uh, देहि सर्वान् देवान् न पश्यामि दे बिगिनिङ्ग् आफ् दे शकुङ् सर्वान् uh, देवान् भूतविशेषसमूहान् दृश्यते वा अधुनाशेष समूहान् ऋषीन् सः ब्रह्माणां ब्रह्माण्डम् ईश्वरं च दृष्टवान् अर्जुनः सौ दृष्टवान् सौ दिव्यं चक्षुः प्राप्य अर्जुनः दिव्यं चक्षुः प्राप्य अर्जुनः the Divine Eyes mm. Shri Shri Krishna the mm. uh, uh, Shri, mm. Shri Krishna आ श्रीकृष्णस्य श्रीकृष्णस्य बाडि आप्टिस् पश्यतु अत्र किमस्ति द्वितीया विभक्ति बहुवचनान्तरूपाणि सर्वान् देवान् भूतविशेषसमूहान् भूत इत्युक्ते भूधातु भू भूभुवि इत्युक्ते अस् एक्सिस्टेन्स् इति ये ये तत्र सन्ति सर्वान् भूतविशेषसमूहान् ऋषिन् ब्रह्माणं ब्रह्माणं सौ आर्जुनः सौ इष्टवान् ब्रह्मा, ब्रह्मा? एन एषः अस्ति एकादशध्याय अध्यायः विश्वरूपदर्शनयोगः तत्र आरम्भे तु एकादश अध्याय उद्घाटयति वा सर्वे सर्वे कृपया तत् अथ एकादशोऽध्यायः पश्यन्तु अर्जुन प्रथमभागस्य अर्जुनः प्रार्थनां करोति तत् प्रार्थनया सह प्रार्थयति अर्जुनः प्रथमे भागे अनन्तरं भगवान् वदति पश्चमे पार्थरूपाणि शतशोथसहस्रशः नानाविधानि दिव्यानि नानावर्णाकृतीनि च एवं सर्वं सः दर्शयति तत्रापि शक्य न शक्यसे दृष्टं स्वचक्षुषा न शक्यते अतः तद् ददामि ते चक्षु पश्चमे योगे योगमैश्वरं तत्र अष्ट अष्टमे श्लोके तदस्ति अष्टश्लोकः तत्र दिव्यं ददामि ते चक्षु पश्चमे योगमैश्वरं मम ऐश्वर्यं पश्य इति वदति अनन्तरं पञ्चदशश्लोकं पञ्चदशश्लोकः तः आरभ्य अर्जुनः किं पश्यति तत् अत्र अस्ति दिव्यं चक्षुः प्राप्य श्रीकृष्णस्य देहे सर्वान् देवान् भूतविशेषसमूहान् ऋषिन् ब्रह्माणम् ईश्वरं च दृष्टवान् सर्वेषु द्वितीया विभक्ति बहुवचनम् एतान् सर्वान् सः दृष्टवान् तस्य वर्णनं पञ्चदशो पञ्चदश श्लोकतः तस्य आरम्भं भवति हा अधुना अगस्ट् महोदये भवान् तत् पठति वा पञ्चदशतः आरभ्य विंशतिपर्यन्तं पठतु पञ्चश्लोकान् पठति वा कृपया अर्जुनः किं किं पश्यति इति एकादश अध्यायः एकादश अध्याय, अध्याय। यत् अधुना भवान् यत् पठितवान् आसीत् <laughs> तस्य श्लोकरूपविवरणं कुत्र अस्ति एकादश अध्याय, okay. अध्याय हा एकादश अध्याये अर्जुनः वदति पश्यामि देवास्तवदेवदेये एतत् सर्वं तत् पठति वा पञ्चदशतः विंशतिश्लोकपर्यन्तम् have an at least to change this is very so i will read okay mm. arjuna arjuna uvacha mm. deva tava deva ehe sarvas tatha mutavishtesha sangha samnan mm. brahmana brahma mm. nimisham कर्मला सनस्थं mm -hmm. निशींश्च सर्वानुरगंश्च रगांश्च दिव्यान् mm -hmm. अनेकबाहुदरवक्त्रनेत्रं पश्यामि त्वां mm -hmm. सर्वतोनन्तरूपं mm -hmm. mm -hmm. नान्तम् मध्ये न पुनस्तवादि पश्यामि विश्वेश्वर विश्वरूपरीतिनं गदिनं चक्रिणं चेजोर ो राशं सर्वतो दीप् दीप्तमन्तं पश्यामि त्वं दीर्निरीक्ष्यम् समन्तात् दीप्ता दीप्तानलार्कद्युतिमप्रमेयंमक्षरं परमम् छेदितव्यं त्वमस्य विश्वास्य परं विधानम् त्वमव्ययः शाश्व धर्मगोप्ता सनातन सनातनस्त्वं पुरुषो मतो मे अनादिमध्यन्तमनन्तवीर्य पश्यामि त्वा त्वां वक्त्रं स्वसेयुजसा विश्वमिदं तपन्त तपन्तप पृथि त्वयैकेन दशाश्च सर्वाः दृष्ट्वा भूतं रूपमुग्रम् अवेदं लोकत्रयं योग्यं योग्यम् उत्तमं धन्यवादाः हा अत्र पश्यन्तु सर्वे पञ्चदशश्लोकतः अर्जुनौ वाच इत्युक्ते यत् यत् सः पश्यति सः वदति किं किं पश्यति तस्य वर्णनम् अस्ति अत्र पश्यतु फ्युरियस् रूपम् अत्र विश्वरूपदर्शनम् इति अस्ति अग्रिमे अपि यदा पश्यति चेत् तत्र बहुवक्त्रनेत्रं बहुबाहुरूपादं बहूदरं बहुदंष्ट्राकरालम् एतत् सर्वं वर्णनमस्ति हा अनन्तरं तत्र दंष्ट्राकरालानि च ते मुखानि हा कालानलसन्निभानि कालानल, कालानल अनल इत्युक्ते अग्नि अग्निरूपम् अग्नि एव तत्र अत अर्जुन स्थिति अ वर्णित अस् अर्जुन से स्थित अ वर्णिता अस्त दिशोन जान लर्मा प्रसिद्व जगन्नीवास सह प्रथना करती तश्व साक्षा तरु सह तुम शक्नो अतः सह प्रसदी से जगन्नीवास हाँ त्र दंगकला भयानका वर्णन अ अष्टविंशतिश्लोकम् अष्टविंशतिश्लोके नवविंशतिश्लोके तत् कथम् उपमा इति एकः विभागः इत्युक्ते उपमा उपयुज्य तत्र वर्णनं कृतं दृश्यते तत् राधा भगिनी पठति वा अष्टविंशति नवविंशतिश्लोकद्वयं कथं तत् रूपं प्रतीयते इति वर्णनमस्ति पठति वा कृपया यथा नदीनाम् बहवोम्बु वेगाः समुद्रमेवाभिमुखा द्रवन्ति तथा तवामि नरलोकवीरा विशन्ति वक्त्राण्यवि ज्वलन्ती यथा प्रदीप्ताम् ज्वलनाम् पतङ्गा विशन्ति नाशाय समृद्धवेगाः तथैव नाशाय विशन्ति लोका सवापि वक्त्राणि समृद्धवेगाः अत्र अहमेकमत्र वक्तुमिच्छामि पश्यन्तु अत्रापि द्वितीया योगे कथमस्ति हा यथा नदीनां बहवः अम्बुवेगाः अम्बुवेगाः प्रवाहः समुद्रम् एव अभिमुखाः समुद्रं टु mm. अभिमुखाः द्रवन्ति तथैव नरलोकवीराः अभिविज्वलन्ति तव वक्त्राणि विशन्ति तव वक्त्राणि तव प्रकाशमाना मुखानि प्रविशन्ति mm. तत्र उपमा अस्ति नदीनां वेगः नरलोकवीराः तथैव यथा विविधाः प्रवाहाः समुद्रं प्रति गच्छन्ति तथैव नरलोकवीराः तव वक्त्राणि अत्र वक्त्राणि इति वदनं तत् द्वितीयान्तपदमेव अस्ति हा वक्त्राणि दश्यन्ति तत्र गत्यार्थे द्वितीया इति mm. विषयः अपि तत्र प्रतीयते द्वितीयं श्लोकं यदस्ति यथा प्रदीप्तो जलनं पतङ्गा तत्र अपि पश्यन्तु mm. हा समृद्धवेगः इत्युक्ते तत्र तीव्रवेगः तीव्र आवेगः समृद्धः तत् वेगः अस्ति परन्तु तीव्रतया हा समृद्धवेगाः तीव्रतयाः तीव्रतया पतङ्गाः कुत्र विशन्ति प्रदीप्तं ज्वलनं विशन्ति प्रदीप्तं ज्वलनं प्रदीप्तं ज्वलनम् इत्युक्ते अग्निं ज्वलनमित्युक्ते अत्रापि पश्यन्तु द्वितीया विभक्ति अग्निं विशन्ति किमर्थं नाशाय mm -hmm. तस्य नाश एव ते प्रविशन्ति तथा एव तथा एव समृद्धवेगा तथैव तीव्रतया लोकाः तव वक्त्राणि नाशाय विशन्ति लोकाः तत्रापि वक्त्राणि द्वितीयान्तपदं वक्त्रं वक्त्राणि वक्त्रं वक्त्राणि तत्प्रथम अवनम् वने वनानि कथं तथैव तत्र द्वितीयान्तपदं वक्त्राणि न्ति तीव्रगतया पतङ्गाः ज्वलितम् अग्निं mm -hmm. प्रविशन्ति तथैव एतत् सर्व नरलोकवीरा इत्युक्ते सर्वे प्राणिनः तव मुखानि स्वनाशाय एव प्रविशन्ति स्वस्य नाशाय एव ते सर्वे प्रविशन्ति इति दत्तमस्ति तत् उपमा इति एकः तत् प्रकार उपमा हसिमिलि इति वदामः खलु अतः तत्र अधुना एतत् सर्वं वर्णनमस्ति अग्रिमे अपि सः वदति तत् सः किञ्चित् भयभीतः अपि अस्ति हा तत् अग्रिमे तत् वर्णनमस्ति अधुना सः पश्यन्तु अग्रिमे सः पृच्छति भगवन्तं पृच्छति आख्याहिमे को भवान् उग्ररूप तत् अपि पठति वा भगिनि Uh, 31 hmm. भवनु गुरूपो नमस्तु ते देववरप्रसीद विज्ञातुमिच्छामि भवन्तमाध्यं न हि प्रजानामि तव न हि प्रजानामि तव प्रवृत्तम् प्रवृत्तिम् प्रवृत्ति. इत्युक्ते किञ्चित् सन्देहरूपेण हा अत्रापि वदति प्रसीद प्रसीद प्रसिद्ध इत्युक्ते प्रसन्नः भव प्रसन्नः भव तव उग्ररूप भयङ्करस्वरूपं कः कः इति कृपया कथय इति हा तव प्र प्रणामः इत्युक्ते अहं नमस्कारं करोमि अहं नमामि त्वं नमामि अहं mm. न जानामि तव प्रवृत्तिम् कीदृशी प्रवृत्ति अहं न जानामि हा अतः वर इति संज्ञया सवद् देववर वर इत्युक्ते श्रेष्ठ देवानां वरः सर्वदेवेषु भवान् श्रेष्ठः इति अग्रिमे भगवान किं वदति हा अधुना विना भगिनी तत पठति वा अग्रिमं श्लोकं द्वात्रिंशत् तत्र 32 टु कालोऽस्मि श्रीभगवानुवाच कालोऽस्मि लोकक्षयकृत्प्रवृद्धः लोकान् समाहर्तुमिह प्रवृत्तः ऋते पित्वा न भविष्यन्ति सर्वे एव स्थिताः प्रत्यनीकेषु योद्धाः अधुना स भगवान् उत्तरम् अहम् लोकक्षयकृतप्रवृद्धः कालः अस्मि यत् अत्र वयं प्र पठितवान् एतान् सर्वान् पूर्वस्मिन् परिच्छेदे एतान् सर्वान् अहमेव पूर्वं मारितवान् अस्मि त्वं निमित्तमात्रं भव तस्य उत्तरमत्र अस्ति हा अहं सर्वान् लोकान् प्रवृहर्तुं हा तेषां हननं कर्तुं प्रवृद्धः कालः अस्मि अग्रिमं श्लोकमपि पठति वा कृपया तस्मात् तस्मा त्वमुत्तिष्ठय शोलभस्व जित्वा शत्रून् भुङ्ज्यं समृद्धम् मयैवैते निहताः पूर्वमेव निमित्तमात्रम् भव सव्यसाचिन् निमित्तमात्र भव सव्यसाचिन् इति सम्बोधनरूपेण हे सव्यसाचिन् सव्यसाचि इत्युक्ते सव्येन महस्तेन सेचते इति तत्र कथं वदामि तत् इत्युक्ते वामहस्तेन अपि कौशल्यस्य प्रदर्शनं कर्तुं सह शक्नोति तादृशी योग्यता अर्जुनस्य अतः ता तत् सव्यसाचे तस्मात् त्वमुत्तिष्ठ यशः लभस् सर्वेषु आज्ञार्थकृपाणि मध्यमपुरुषे उत्तिष्ठ लभस्व शत्रुञ्जित्वा राज्यं भुङ्क्ष्व समृद्धं राज्यं भुङ्क्ष्व एते मया पूर्वं निहताः निमित्तमात्रं भव mm, तत्र तान् mm. सर्वान् मया पूर्वमेव विनाशिता mm. भवान् निमित्तमात्रं त्वं निमित्तमात्रं इति mm, mm. mm. तत्र आगच्छति mm. तत् अस्ति एकादश अध्याय अधुना अग्रिमं हा अग्रिमं तत् वाक्यपठनं तत् भा, भारतमहोदय पठति वा अन्तिमं वाक्यं तत् विश्वरूपदर्शनेन विश्वरूपदर्शनेन अर्जुनस्य मोहः नष्टः सः ज्ञानं प्राप्तवान् वन् मम सन्देहः नष्टः अहं तव वचनं करिष्यामि ऐ केट् सीट् अधुना दृश्यते दृश्यते अहं तव वचनं करिष्यामि इति उक्तवान् युद्धं कर्तुं सः सन्नद्धः सन्नद्धः सन्नद्ध सन्नद्ध अभवत् एतत् अस्ति अष्टादश अध्याये अष्टादश अध्याय हा अष्टादश अध्याये अत्र अष्टादश अध्याय इत्युक्ते तत् मोक्ष मोक्षसन्न्यासयोगः इति अस्ति तस्य अन्तिमः भागः उद्घाटयति वा अष्टादश अध्यायः तत्र श्लोकं yeah. पठति वा नष्टो मोहः yeah. अर्जुन उवाच नष्टो मोहः स्मृतिलब्धाप्रसादात्म याच्युत yeah. स्थितोऽस्मि गतसन्देहः करिष्ये वचनं तव अत्र तथैव अस्ति खलु किं वदति अर्जुन वदति मम मोहः मम मोहः नष्ट अधुना तव प्रसादात् मम मोहः नष्टः इत्युक्ते भवतः अनुग्रहात् इति अनुग्रहः इति हा मम मोहः नष्टः स्मृति मया लब्धा इति वदति हा स्मृति मया लब्धा इत्युक्ते मम कर्तव्यस्य स्मरणम् अभवत् इति कर्तव्यस्मरणं जातम् अधुना मम सन्देहः अपि गतः अधुना अहं करो किं करोमि तव वचनं करिष्यामि वचनम आचरष्या करिष्ये तव वचन वा मम मोह ये यहाँ सन्देह विपरीतया मनसी यदि अधुना ग हाँ अहम तव प्रसादा यथार्थस्वूप ज्ञानम प्राप्तवास मम विपरीतज्ञानम् अधुना नष्टमस्ति मम सन्देहः गतः अतः अह अधुना अहं तव वचनानुसारेण एव आचरणम् करोमि इति अन्तिमसा स एवं खलु अतः युद्धं कर्तुं सः सन्नद्धः अभवत् वाज़् रेडि टु फैट् अधुना वचनं तव करिष्ये तथैव अस्ति अत्र जयन्तीभगिनी पठति वा अत्र श्लोकप्रत्याहत्यर्जुन तत् ततः आलभ्य क्षम्यतां प्रजहात्यर्जुनः तत् प्रजहाति अर्जुनः प्रजहात्यर्जुनश्लैव्यं पुनश्चायं न शोचति प्रणश्यति हि सम्मोहः तेनासौ विन्दते स्मृतिम् अग्रिम अग्रिमे च माधवम् पार्थ करिष्ये वचनम् ततो युद्धाय सन्नाहम् कुर्वन्नुत्तिष्ठति स्वयम् यो, योधीते हनिर् योधीते हर्निशम् भक्त्या धर्म्यम् संवादमुत्तमम् स पुण्यकर्मणाम् लोकान् अवाप्नोति न संशयः अत्र क्रियापदाना अत्र क्रि अत्र अधिकतया प्रयुक्तानि सन्ति तत्र वा वाक्ये अपि भवत्याः भावः तथैव आगतः इति खलु तदेव तत्रापि एक एक वाक्यमस्ति इति चिन्तित्वा अहं पठितवती तत्र प्रजहाति अर्जुनः श्लोकम् एकवारं सर्वे प्रजहाति अर्जुनः प्लैव्यं क्लैब्यम् इत्युक्ते दुर्बलता अयम न शोचती अग्रिमे शोक से किस्त प्रणश्य सोह असौ विंदते नष्ट मोह स्मृति लथ ब्रूते माधव पाथ ब्रूते वदती तो तत्मशरीपम तरीशे वचन तत युद्धा युद्धा सन्नाह उत्तिष्ठति स्वयम् स्वयम् उत्तिष्ठतिष्ठवान् अधुना अन्तिमा अन्तिमम् श्लोकम् यत् अस्ति तत् कृते यः अधीते अहर्निशम् भक्त्या धर्म्यम् सौवादम् उत्तमम् सः पुण्यकर्मणाम् लोकान् अवाप्नोति न संशयः इतने अस्कं तर्शित यदा अस्माक mm. mm. अहर्नीशं mm. पर अहर्शक् mm. अहन्न दिवस रात्र mm. निश mm. यदा mm. दिने रात्री वय धर्म संवाद उत्तम भक्त तरह mm. ग्रहण कूद अस्क्यकर्माण mm. लोका ह hmm. कस्य लोकः अधमलोकः इति न पुण्यकर्माणां लोकान् अवाप्नोति hmm. न संशय इति तत्र ग्यारण्टि दत्तमस्ति संशय hmm. एव नास्ति इति अस्ति हा hmm. अधुना hmm. अन्तिम hmm. अहम् इच्छामि तत् अम्बिकापतिमहोदय भवान् कृपया तत अन्तिमे अष्टादश अध्याये सेवेण्टि फोर् तः अन्तिमं यत्र योगे सेवेण्टि पर्यन्तं पठति तेन एव अस्माकं समापनं भवेत् इति चिन्तयामि पठति वा कृपया अत्र आम् आम् सञ्जय उवाच तथा सञ्जयुवाचिफोर् इत्यहं वासुदेवस्य पार्थस्य सङ्गणकम् इत्यहं वासुदेवस्य पार्थस्य च महात्मनः संवादमिमम् इदम् अश्रमषत्पुदम् mm -hmm. रोमहर्षणम् रोमहर्षणम् अग्रे हाँ, अग्रे मे अपि पठतु व्यासप्रसादाश्च श्रुतवानेत् अद्य गुह्यमहम् परम् योगम् योगेश्वरात् कृष्णात् साक्षाद्गदयत स्वयम् कथयतः स्वयम् अग्रे राजन् संसृत्य संसृत्य स्वामदमिदद्भुतम्भुतम् संवाद संवादमिदमद्भुतम् केशवार्जुनयो पुण्यम् हृष्यामि च मुहुर्मुहुः तच्च संवृत्य संहृत्य रूपमद्बुदम् हरेः विस्मय विस्मयोमे महान् राजन् हृष्यामि च पुनः पुनः यत्र योगेश्वरकृष्णो यत्र पार्थो धनुर्धरः तत्र विजयो श्रीर्विजयोर्म अत्र अन्तिमे सञ्जयस्य वचनानि सन्ति तत् रोमाञ्चकारम् एवम् आश्चर्यम् एतत् संवादम् अहं श्रुतवान् इति सः वदति कं प्रति वदति धृतराष्ट्रं प्रति वदति हा तत्र साक्षात् योगेश्वरकृष्णः Uh, गीताज्ञानं गीता, गीता गीता तत्व सः कृतवान् अहं श्रुतवान् व्यासस्य अनुग्रहेण अनुग्र अनु अनुग्रहेण अहं श्रुतवान् इति सः वदति अधुना तद् रुत्रां प्रति अपि वदति कृष्णार्जुनयोः किमस्ति गत कृ केशवार्जुनयोः हा पुण्यं ऋष्यामि च मुहुर्मुहुर् इत्युक्ते तत् एतत् संवादं पुनः पुनः स्मृत्वा अहं मुहुर्मुहुर् पुनः पुनः तुष्यामि आनन्दं प्राप्नोमि मोदं प्राप्नोमि अग्रिमे सः वदति तत् महत महत् आश्चर्यं तत् रूपं कृष्णस्य एतत् रूपं स्मृत्वा महत आश्चर्यम् अनुभवामि सन्तोषं प्राप्नुमन् हा राजन् हृष्यामि च पुनः पुनः इति वदति खलु राजन् इत्युक्ते तत्र ऋतराष्ट्रस्य कृते सम्बोधनं पुनः पुनः हर्षं प्राप्नोमि अन्तिमः श्लोकः अतीवमहत्त्वपूर्णः यत्र योगेश्वरः कृष्णो यत्र पार्थो धनुर्धरः तत्र श्रीर्विजयोर्भूतिर्धुवानीतिर्मतिर्मम इति मम मति मम मति का वर्तते, यत्र कृष्ण वर्त धनुर्धर पाथ वर्त श्री स्त्री संपत्ति अत्रा श्री अभी संपत्ति केवेरय न त मटेरियलिस्टि वेलथ की न त्री त्र ऐश्वर्यता ऐश्वर्युक्तसंपत्ति बुद्धे वैभव नीतिमत्ता एवं सर्वम् ऐश्वर्यं धर्मं हा एतत् सर्वं भवति इति मम मति स्थिरमति इति ध्रुवा ध्रुवा नीतिः अत्र नीतिविषयकपि ध्रुवा चञ्चला नीति इति सत्यं चञ्चला इति न ध्रुवा नीति हा अत्र इतो इतोपि एकः विचारस्य अस्ति भवन्तः अपि वदन्तु इच्छन्ति चे तत्र यत्र योगेश्वरः कृष्णः यत्र पार्थो धनुर्धर धनुर्धर इति शक्तिरूपं सः महान् धनुर्धरी आसीत् खलु अर्जुनः तद्धनुर्धर इति पार्थ इति शक्तिरूपं परन्तु कृष्णः इति योग योगरूप तत्र युक्तिरूप चातुर्यः यत्र युक्तिः यत्र शक् तत्र यत्र ुक् एकत्रीकरण बवती तजय बवती कवल शक्ति अस् शक्ति तत्व शक् साधि तत्ति कवलम त्र युक् साधय तदीप न, हे, न प्रसक्ति नरंतु द्वो एकीकरण यी विजय ध्रुवा नीति मम मती व अस्तु अस्तु अधुना भवन्तः सर्वे एकमेकं एकम वदन्तु तत्र कक्षाद्वयं वयं कथायाः पाठनं न कृतवन्तः परन्तु अस्माकं तत् सङ्क्षेपरूपेण गीता अध्ययनम् अभवत् इति मन्ये भवन्तः किं चिन्तयति वदन्तु एकमेकं एकम एकयोगमार्गेण कर, कार्यं कर्तुं भगवान् भा, अनुग्रहेन सर्वं जयितुम् अर्हति भगवतः अनुग्रहेन योगमार्गस्य आचरणं कृत्वा जयप्राप्ति विजयप्राप्तिः निश्चयेन भवति सत्यं बहु वदन्तु वीरा भगिनी राधाभगिनी जयन्ती भगिनी रमा भगिनी एकमेकं एकम वदन्तु वयमपि अर्जुन अर्जुन इव mm. भगवन्त भगवन्तं भगवन्तः वचनं शृण्मः अस्माकम् mm. अन्तर्यामी भवित्वा भगवान् अस्ति खलु तस्य वचनं mm. कृत्वा mm. अस्माकं mm. जीवनं Uh, चलामः ऐन् च सत्यं तत्र प्रत्यक्षदर्शिनः चारत्या, तत् आत्म आत्मरूपं यत् अस्ति अस्माकं तद् भगवत्स्वरूपमेव सत्यं सत्यं तम् आचरन्तम् आचरन्तं वयम् अस्माकं मार्गक्रमणा भवेत् इति सत्यं सम्यक् उत्तमं वीणाभगिनी राधाभगिनी रमाभगिनी भारतमहोदय ओगस्ट् महोदय वदन्तु एकमेकम् यत्र योगेश्वरः श्री विजयनिश्चितः यत्र योगेश्वरः तत्र निश्चयेन विजयः भवति सत्यं राधाभगिनी मीना भगिनी रमाभगिनी वदति वा सम्यक् अस्ति भगिनी मम इच्छा बहु पठनं करोमि भवत्याः कक्षे मम प्रार्थना अपि धन्यवादः धन्यवाद राधा भगिनी विना भगिनी वदति वा वदतु अवश्यं महोदय वदतु focus of the um, bhagavad gita about uh, ishvara pranabudhi prasad um, bodhi and uh, viswarupa upasanam um, am so it uh, is very uh, very very important this this talks yes truly satyam sankshipta rupeṇa vayam तस्य अध्ययनं कृतवन्तः अत्र अहं किं वदामि तत्र प्रवेशं कृतवन्तः एव तावदेव अवगतवन्तः इति न परन्तु वयम् आरम्भं कृतवन्तः सर्वे तस्य आरम्भं जातम् इति वदामः सत्यां सत्यां हा धन्यवाद महोदय राधाभगिनी विना बगीनी। हा भगिनि हा uh, एतत् श्लोकं सर्वं श्रुत्वा अण्डर्स्टाण्ड् इलनं कृत्वा अपि uh, मोक्षं प्राप्तुं शक्यते भगिनि <laughs> <laughs> <laughs> अस्तु भवती मोक्षविषयकचिन्तनं करोति वा किञ्चित् किञ्चित् अस्तु अस्तु उत्तममस्ति उत्तममस्ति धन्यवादः भगिनि गीता बहु पूर्व भवति परन्तु इदानीमपि तस्य पाठनम् उपदेशं प्रासङ्गिक रेलेवेंट अस्ति सत्यम् अस्ति आम् आम् आम् उपकार कालानुसारेण तत्र उपयोगित्वा तस्य उपयोगिता सिद्धा गच्छता कालेन तस्य उपयोगिता सिद्धा इतोपि mm, mm, mm. mm. निश्चयेन उत्तमम् mm. उत्तमं निश्चयेन अस्तु भवत्याः सेवा वर्धताम् अभिवर्धतां बहिनी धन्यवादः धन्यवादाः धन्यवादाः अस्तु कक्षाद्वयं कथापठनं न भवेत् अग्रिमे कक्षायां वयं पठनं कुर्मः अस्तु एकवारं संक्षिप्तरूपेण भवेत् इति मम चिन्तनम् तत तत् भवन् भवा, सर् भवन्तः सर्वे तत् सहकारेण एव भवतां सहकारेण एव सर्वं योग्यप्रकारेण अभवत् सर्वेषां धन्यवादाः सर्वदा सर्वदा भगवता भगवन्त गीता उपदेशं मनसि स्म स्मरामः सदा सर्वदा अहर्निश इति अस्ति खलु तत्र दत्तमस्ति श्लोके अपि अहर्निश तत् महत्त्वपूर्णा धन्यवादः अत्र पश्यन्तु तत्र एक एकं श्लोकं तत् अनन्याश्चिन्तयन्तो मा ये जनाम् पर्युपा ये जना पर्युपासते तेषां नित्याभियुक्तानां योगक्षेमं वहाम्यहम् अधुना, अधुना, अधुना कोऽपि वदेत् तत्र भगवान अस्माकं तत् पालनकर्ता सः एव अस्माकं तद्योगक्षेम न परन्तु डिस्क्लेमर् अस्ति किम् अनन्याश्चिन्तयन्तो मा ये जनाः पर्युषु तेषाम् इत्याभियुक्तानां तेषाम् एव पापाचरणं ये कुर्वन्ति अनन्तरं वदन्ति मम योगक्षेम तु भगवतः समीपे न, न तथा अतः तत्र व्याकरणदृष्ट्यापि अनन्तरं तर्कदृष्ट्यापि न्यायशास्त्रस्य दृष्ट्यापि रसहित इत्युक्ते तत्र रसिक अलङ्काररस उपमा सर्वानां तत्र गणना भवति गैड् गैड् इव गैड् इव अस्माकं भगवद्गीता एक एवम् अस्मा पर्याप्तं पर्याप्तम् अस्ति सत्यं सत्यं अस्तु धन्यवादाः सर्वेषां अम्बिकापतिमहोदयन्त्रम् एकवारं अग्रिमे सप्ताहे हा अग... आगामि सप्ताहे अस्ति अस्ति अस्ति अस्ति ओम् ॐ पूर्णमधः पूर्णमिदम् पूर्णात् पूर्णमुदक्ष्यते पूर्णस्य पूर्णमाधाय पूर्णमेव अवशिष्यते ॐ शान्तिशान्तिश्शान्तिः हरिः ओम् तत्सद् श्रीगुरुभ्यो नमः हरिः ओम् धन्यवादः धन्यवादाः नमो नमः धन्यवादः भगिनी धन्यवादः धन्यवादः यदि मोक्षप्राप्नोति तर्हि अहं योगेश्वरं न भजामि बहु सम्यक् बहु सम्यक् तत्र मोक्षप्राप्ते अनन्तरमपि योगेश्वरम् एव तत्र योगेश्वरस्य साधनाम् एव ध्यानधारणामेव करोमि इति सत्यं सत्यम् सत्यम। उत्तमं धन्यवादः पुनर्मिलामः